अत्र अयम् विशेषः महत्तत्त्वस्य नामेदम् हय इत्यवधार्यते हयः हयः इत्युक्तौ आ आज्ञम् च विशुद्ध्या विशुद्ध्यायत् तदेवेदम् शिरोभवेत् तावन्नाडीगतिव्याप्तिः स्थिरोरूपा प्रकाशते नाम्ना हिशिराख्यातम् सृष्टिव्याप्यम् सदातनम् नाडीगतिस्तथैव स्यात् तेजोरूपासनातनी स्थिरानाडीति आज्ञया निःसृता नाडी विशुद्ध्या च प्रतिष्ठिताम् महत्तत्प्रान्तका दिव्या हय हा, हयशिरायशिरा च हयशिरा इति स्थिताम् यदा हयस्तपसि वृद्धे तदा सत्त्वं तिरोहितम् धृतम् हैशिरव्याप्तिः वेदानुद्धरते मुदाम् महत्तत्त्वम्भयो विद्यात् शिरा तस्य गति स्थिता आहृद्या हयशिराभाति महदाज्ञा च मध्यमाम् योगिनाम् ज्ञानिनाम् नित्यम् अनुभूतिः स्वयम् प्रभा तेजोदीपा च सा बोध्या स्वात्मसिद्धासनाथनि आज्ञम् भयपर्यन्तम् सुषुम्ना ज्ञेया हैषिरा सा हि योगिनाम् अनुभूतिदा अनुभूति सुपक्वा परमा भाषा स्वमूलम् स्वविकासतः सुपक्वा विकासात् विकासान्मूलमश् मूलमश्नुते मो, ज्ञानबीजम् स्वपत्त्वेन स्वरूपम् व्यक्तताम् नयेत् स्वविकासम् स्वसौन्दर्यम् पूर्णत्वम् अनुभावयेत् तथैव प्रकृतिस्वेमाम् सृष्टिम् मूलम् नयम् नयेद्ध्रुवम् असिषृक्षासिशृक्षया तथैवात्मा प्रकृत्या रमते स्वयम् विकासगाम् पराम् सृष्टिम् स्वलीनाम् तनुतेऽन्वहम् सदात्मीया सदिच्छासौ स्वव्यक्तम् व्यक्तताम् नयेत् दिदृक्षया स्वसौन्दर्यम् सृष्टिदर्पण एव च तदर्थम् भासते विद्या सनातनदिघृक्षया स्वशक्तिम् व्यक्तता भेष्यन् स्वमूलाधीगांसया व्यक्तिम् व्यक्तिस्थितिम् दिदृक्षन्ति पुनरव्यक्तवर्तिनि स्वशक्तिम् बहिरानाय्य संस्थाप्याप्ययमिच्छुनाम् पुरुषेण परो भूमा भूमिकाम् रचयिष्यति हिरंसया प्रकृत्यासौ सङ्कल्पेन विचेष्टते चेष्टासो व्यक्तभूत चेष्टासौ व्यक्तभूतानाम् अव्यक्ताय प्रकल्पते रिरंसा च सिसृक्षा च प्रकृत्यैति सनातने लिलक्षया च येर्षा च प्रकृतौ व्या सदा सृष्टिस्थितिलयान्तानाम् अंकुरा अंकुरा यता तदा अंकुर अंकुरपृथ य्रमित शास्ती स्विणाम व्यक्तिरात्थ कियपरीक्षतिच्च्चार्य स्वातिरक्षण इयमेवपरा काकृत अंकुरा वबृथव व्याप्य आवात्मा इदं तत्त्वम् सृष्टिस्थितरया नित्यम् प्रतिवस्तुचका सति अनिरुद्ध आनादिसिद्धदिव्याभाः ज्ञानविज्ञानलक्षणाः बिन्दुवर्नादसमुद्भूतिः तद्व्यक्तिः सृष्टिभूमिका बिन्दुरादसमुद्घोषः स्वतःसिद्धः सनातनः तद्विज्ञानविकासात्मा सृष्टिनित्यमिधीयते मूलज्ञानस्य बीजम् स्यात् विकासो वृक्ष तदेव श्रुतिराहेत्थम् सोऽकामेत बहुस्याम् प्रजा येया ततपोतप्यता तत्सृष्ट्वा तदेवानप्राविशत् किञ्च प्रजापतिरकामेत प्रजाः सृज प्रजा प्रजापतिरकामेतत् प्रजास्य ज्येति तपोतप्यता सर्पान् सृजत स्वकामेत प्रजास्य ज्येयेति स द्वितीयमतप्यता स प्रजाकस्य सृजत स्वकामेत प्रजास्य द्येयेति स तृतीयमतप्यत स एतन् दीक्षितवादमपश्यत् ततोऽपि स प्रजा सृजत यद्दीक्षितवादम् वदति प्रजाः इति स्मृतिराह सनातने विद्यया तातसृष्टानाम् विद्यैव परागतिः एवम् यथा बीजम् सुपक्कोत्थम् स्वरूपम् सृजति स्वयम् तथा सङ्कल्पबीजम् स्वम् आत्मानम् सृजति स्वयम् इदम् सर्वम् समासेन सूक्तव्याप्यम् विलक्षितम् दृष्टिस्थितरयाक्रान्तम् यज्ञम् तन्मन् विवक्षति अहङ्ग्रहो विशेषेण तत्राज्य अपरो अनहमास्थितः अन, अनहम्यहम् इति तत्राहम् सर्ववैषम्यम् उपादाय प्रवर्तते साम्यवैषम्यसाम्राज्यम् अयम् सृष्टिम् प्रशास्तिः व्यौ तन्वा तेन्नतम् परिव्याप्तम् यथा यथमनुत्तमम् अयथायथम् तदव्याप्तम् युणायैव कल्पते एतज्जिहीर्षया बीजम् स्वकार्यम् तनुतेद्वहम् व्यक्ताव्यक्तक्ष सकल तस् विद्यकते व्यक्त व्यक्तवृत्ति तत्व व्यक्तव इदं माननम परम सृष्टे नैसर्गिक सामसव्यासभा व्यक्ताव्यक्तौ सनातनौ्यं वितन तो निवेण विवक्षित